विधारणाय नमः ॐ विद्युत्थाय नमः ॐ विद्वज्जनसंशृताय नमः ॐ विद्वज्जनसमाश्रयाय नमः ॐ विद्वज्जनस्तव्यपराक्रमाय नमः ॐ विद्याकराय नमः ॐ विद्याविद्याकराय नमः विद्यावेद्याय नमः ॐ विद्याप्रधाय नमः ॐ विद्यामयाय नमः ॐ विद्यावराभीतिकुटारपाणये नमः विद्वद्रृङ्गसुपूज्याय नमः ॐ विद्वदुत्तमाय नमः ॐ विद्याधये नमः ॐ विद्याराजाय नमः ॐ विद्रवाय नमः ॐ विद्याविज्ञानधाय नमः ॐ विद्याधरणार्चिताय नमः विद्युत्कोटिप्रकाशाय नमः ॐ विद्युत्तमाय नमः ॐ विद्युतशनिमेधकर्जितप्रभवे नमः ॐ विद्योतवेदवेदाङ्गाय नमः विद्यानां प्रभवे नमः ॐ विद्यानां पतये नमः ॐ विद्यानामात्मविद्याय नमः ॐ विद्युताय नमः ॐ विद्युत् पिङ्गजटाधराय नमः ॐ विदेहाय नमः ॐ विद्याधायिने नमः ॐ विद्यारूपिणे नमः ॐ विद्याधराय नमः ॐ विद्याधरविधानज्ञाय नमः ॐ विद्याविचक्षणाय नमः ॐ विद्याविशिष्टनियतात्मसुवैभवाय नमः ॐ विदलासुरधादिने नमः ॐ विगलितविषयप्रवाहदुर्वृत्तये नमः ॐ विद्यादेहाय नमः ॐ विद्याधिपतये नमः ॐ विद्यादिकेशाय नमः ॐ विद्याधारिणे नमः ॐ विद्याभोगबलादिकाय नमः ॐ विद्यातत्त्वाय नमः ॐ विद्यासस्यफलोधयाय नमः ॐ विद्यालङ्कृतदेहाय नमः ॐ विद्यानन्दमयात्मने नमः ॐ विद्यालक्ष्याय नमः ॐ विद्योतितवेदवेधाङ्गाय नमः ॐ विद्याकलात्मक खण्डाधिकाय नमः ॐ विद्याकराय नमः ॐ विद्यातीताय नमः ॐ वेदवाचामगोचराय नमः ॐ वेदगुक्माय नमः ॐ वेदाय नमः ेदगम्याय नमः ॐ वेदाश्वरदवाहिने नमः ॐ वेदप्रियाय नमः ॐ वेदविधे नमः ॐ वेदिदाखिलोकाय नमः ॐ वेदान्तार्थस्वरूपिणे नमः ॐ वेदान्तवेदिने नमः वेदस्वरूपाय नमः ॐ वेदान्तोद्धारकाय नमः ॐ वेदान्तवेदिने नमः ॐ वेदान्तनिलयाय नमः वेदश्रवसे नमः ॐ वेदरूपाय नमः ॐ वेदघोषाय नमः ॐ वेदवाहिने नमः ॐ वेदसागरतारणाय नमः ॐ वेदपित्रे नमः वेदवेत्रे नमः ॐ वेदवेदान्ततत्त्वज्ञाय नमः ॐ वेदभास्मविमोहनाय नमः ॐ वेदशास्त्रार्थतत्त्वज्ञाय नमः ॐ वेदवित्तमाय नमः ॐ वेदनायकाय नमः ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः त्मरूपाय नमः ॐ वेदवेदाङ्गसन्नुथाय नमः ॐ वेदादिमयाय नमः वेदलिङ्गाय नमः ॐ वेदाङ्गाय नमः ॐ वेदमूर्तये नमः ॐ वेदकर्मापधानानां द्रव्याणां प्रभवे नमः ॐ वेदानां सामवेदाय नमः समन्वयाय नमः ॐ वेदितव्याय नमः ॐ वेदान्तोपवने विहाररसिकाय नमः ॐ वेदसाराय नमः ॐ वेदवेद्याय नमः वेदरहस्याय नमः ॐ वेदानामविरोधाय नमः ॐ वेदान्तसाराय नमः ॐ वेदान्तसारसन्तोहाय नमः ॐ वेदान्तसाररूपाय नमः ॐ वेदजिह्वाय नमः ॐ वेदवेदिने नमः ॐ वेदाक्षमाला वरधाभयां खाय नमः वेदान्तज्ञानरूपिणे नमः ॐ वेदान्तपठिताय नमः ॐ वेदविश्वसिताय नमः ॐ वेदानां प्रभवे नमः ॐ वेदान्तकर्त्रे नमः ॐ वेदशास्त्राय नमः ॐ वेदाभयेष्ठाङ्कुशभाषशुलकफालमालाग्निगणातिधराय नमः वेदास्वाय नमः ॐ वेदशास्त्रप्रमाणाय नमः ॐ वेदान्तवेद्याय नमः ॐ वेद्याय नमः ेधात्मने नमः ॐ वेदादृशाय नमः ॐ वेदविग्रहाय नमः ॐ वेदेज्याय नमः ॐ वेदकृते नमः ॐ वेदवक्त्राय नमः ॐ वेदास्याय नमः ॐ वेदकराय नमः वेदमृगाय नमः ॐ वेदवेदान्तसंस्तुताय नमः ॐ वेदकाराय नमः ॐ वेदाङ्गाय नमः ॐ वेदविदुषे नमः ॐ वेदशास्त्रार्थतत्त्वज्ञाय नमः ॐ वेदार्थविे नमः वैद्याय नमः ॐ वैदेहीशोकहारिणे नमः ॐ वैद्या वैद्यचिकित्सकाय नमः ॐ वैद्यानां वैश्वानराय नमः ॐ वैद्युतासनिमेषगार्जितप्रभवे नमः ॐ वैदिकाय नमः वैद्युतप्रभवे नमः ॐ वैदिकोत्तमाय नमः ॐ वैद्यशास्त्रप्रदर्शिने नमः ॐ वैदिकाचारनिरताय नमः ॐ वैदिककर्मफलप्रदाय नमः ॐ वन्द्यप्रसादिने नमः ॐ वन्दिने नमः ॐ वन्द्याय नमः ॐ वन्द्यप्रदाब्जाय नमः ॐ वन्दारुजनवत्सलाय नमः ु बृन्दपालनमन्धारपधाय नमः ॐ वन्द्यमानपद द्वन्द्वाय नमः ॐ वन्दारुजनमन्धाराय नमः ॐ वन्धारुमन्धाराय नमः ॐ वृद्धाय नमः ॐ वृद्धात्मने नमः ॐ वृद्धिक्षयविवर्जिताय नमः ॐ वृद्धिदायकाय नमः ॐ व्याधये नमः ॐ विधात्रे नमः विधेयात्मने नमः ॐ विधये नमः ॐ विद्रुदविधूषाय नमः ॐ विधानज्ञाय नमः ॐ विद्यद्भचो नमः ॐ विधिविधामग्रेसराय नमः ॐ विधातृविष्णुकलहनाशनाय नमः विदिशारधये नमः ॐ विधिसर्गपरिज्ञानव्रथोलोकाय नमः ॐ विधिस्तुताय नमः ॐ विदुबिम्बाय नमः ॐ विन्ध्याचलनिवासिने नमः ॐ विन्ध्यमर्दनाय नमः ॐ वेदसे नमः ॐ वेदित्रे नमः ॐ वनवासिने नमः ॐ वनस्पतीनां प्रभवे नमः ॐ वनमालादिविभूषणाय नमः ियाय नमः ॐ वनितार्धाङ्गाय नमः ॐ वनदुर्गापतये नमः ॐ वनाम् पतये नमः ॐ वनचराय नमः ॐ वन्या वनिविमोधिने नमः ॐ वन्याय नमः ॐ वनजाक्षाय नमः ॐ वनालयाय नमः ॐ वन्यासनप्रियाय नमः ॐ वानप्रस्थाय नमः ॐ वानप्रस्थाश्रमस्ताय नमः नप्रस्थाश्रमिणे नमः ॐ व्यानेश्वराय नमः ॐ विनुतात्मने नमः ॐ विनायक नमस्कृताय नमः ॐ विनायकाय नमः ॐ विनायक विनोदस्थाय नमः ॐ विनष्टदोषाय नमः ॐ विनताय नमः ॐ विनयित्रे नमः ॐ विनीतात्मने नमः ॐ विनमद्रक् क्षणकर्मणे नमः ॐ वपुषे नमः ॐ नमः ॐ नमः ॐ नमः ॐ नमः ॐ नमः ॐ नमः ॐ नमः विप्रा विप्रवर्तनाय नमः ॐ विप्राप्त्रे नमः ॐ विप्रगोप्त्रे नमः ॐ विप्रहत्या विमोचकाय नमः ॐ विपन्नार्तिहारिणे नमः ॐ विप्रमन्दिरमध्यस्थाय नमः ॐ व्यापिने नमः ॐ व्यापाण्डुखण्डदेशाय नमः ॐ विपाकाय नमः ॐ विपर्यासविलोचनाय नमः ॐ विपणाय नमः ॐ विपुलांशाय नमः ॐ विप्रनाथविनोधिने नमः ॐ विप्रोभादिविनिर्मुक्ताय नमः ॐ विप्रवन्ध्याय नमः ॐ विप्रियाय नमः ॐ विप्रशरीरस्ताय नमः ॐ विप्रनन्द्याय नमः ॐ विप्ररूपाय नमः ॐ विप्रकल्याणाय नमः ॐ विप्रवाक्यस्वरूपिणे नमः विप्रवै विप्रवैकल्यसमनाय नमः ॐ विप्राविप्रसादिने नमः ॐ विप्राविप्र प्रसादकाय नमः ॐ विप्रारादनन्दुष्टाय नमः ॐ विप्रेष्ठफलदायकाय नमः ॐ विप्राणाम् नमः ॐ विप्राय नमः ॐ प्रभोजनन्तुष्टाय नमः ॐ विप्रश्रियै नमः ॐ विप्रालय निवासिने नमः ॐ विप्रैरभिष्टुताय नमः ॐ विप्रपालाय नमः ॐ विपासाय नमः ॐ विम्बीजबसन्तुष्टाय नमः विबुधाय नमः ॐ विबुधलोलाय नमः ॐ विबुधाश्रयाय नमः ॐ विबुधगुणपोषकाय नमः ॐ विबुधस्वरपूजिताय नमः ॐ विबुधस्रोतस्विनीशेख नमः विभवे नमः ॐ विभक्तिवचनात्मकाय नमः ॐ विभगज्ञाय नमः ॐ विभागाय नमः ॐ विभागवते नमः ॐ विभाकरस्तुताय नमः ॐ विभागकनरूपिणे नमः ॐ विभ्रान्ताय नमः ॐ विभुत्सगभूषाय नमः विभीक्षणाय नमः ॐ वामशक्तिधराय नमः ॐ वामदेवाय नमः ॐ वामदेवप्रियाय नमः ङ्गीकृत वामाङ्गिने नमः ॐ वामाय नमः ॐ वामदेवात्मकगुख्याय नमः ॐ वामनाय नमः ॐ वामदेवात्मकाय नमः ॐ वा नमः ॐ वामां गसंशय गौरीकुचकुम्भाश्लेक्षलांशेतोस्क य नमः ॐ वामे क्षणासखाय नमः ॐ वामनायितचन्द्रमसे नमः ॐ वाम नमः ॐ वामहर्षकाय नमः ॐ वामदेवादिसिद्धौघसंवृताय नमः मभागां घामरूढगौर्यलिङ्गतविग्रहाय नमः ॐ वामदेवात्मकोत्तरवदनाय नमः ॐ वामदेवात्मकनाभ्याधिकाय नमः ॐ वामातिविषया षट्थधनिष्ठाय नमः ॐ वामलोचनाय नमः मां गाय नमः ॐ वा गभाग गभागविलसत् पार्वतीवीक्षणप्रियाय नमः ॐ वामदेवात्मने नमः ॐ वामिने नमः ॐ वामेन कलत्रवते नमः ॐ वामभागार्थवामाय नमः ॐ वाम नमः ॐ वामभागकल र्धशरीराय नमः ॐ विमलार्धार्धरूपिणे नमः ॐ विमलहृदयाय नमः ॐ विमलाङ्गाय नमः ॐ विमलचरिताय नमः ॐ विमलप्रणवाकारमध्यगाय नमः ॐ विमलविद्याय नमः ॐ मार्गप्रतिबोधनाय नमः ॐ विमलगुणपालिने नमः ॐ विमलेन्द्रविमानदाय नमः ॐ विमलहृदां वांशितार्थगणधार्त्रे नमः ॐ विमर्शाय नमः विमर्शरूपिणे नमः ॐ विमर्शवाराशये नमः ॐ विमुक्ताय नमः ॐ विमानानां पुष्पकाय नमः ॐ विमुक्तात्मने नमः ॐ विमुखारिविनाशनाय नमः ॐ विमोचनाय नमः ॐ विमलयोगीन्द्रहृदयारविन्दसधनाय नमः ॐ विमलाय नमः ॐ विमलागमभागवे नमः ॐ विमलवाणीश्वरेश्वराय नमः मलोधयाय नमः ॐ व्यामकेशाय नमः ॐ व्यामघाय नमः ॐ व्योमकाराय नमः ॐ व्योममण्डलसंस्थिताय नमः ॐ व्योमातीताय नमः ॐ व्योमरूपिणे नमः ॐ व्योमाकाराय नमः ॐ व्योम नमः यो मघं गा विनोधिने नमः ोमलिङ्गाय नमः ॐ व्योम बिन्दुसमाश्रिताय नमः ॐ व्योमरूपाय नमः ॐ व्योम मूर्तये नमः ॐ व्योमाधिपतये नमः ॐ व्योम संस्थाय नमः ॐ व्योम गङ्गाजलस्नानसिद्धसङ्गसमर्चिताय नमः ॐ वयसा पञ्चविंशतिवार्षिकाय नमः ॐ वयस्य परिमण्डिताय नमः ॐ वयोवस्थाविवर्जिताय नमः ॐ वयोमध्यस्थाय नमः ॐ वयस्याय नमः ॐ वयोवस्थाविहीनाय नमः ॐ वयसाम्पतये नमः यकृते नमः ॐ वायवे नमः ॐ वायुवाहनाय नमः ॐ वायुगाय नमः ॐ वायुवाहाय नमः ॐ वा अग्निनभसाम्पतये नमः वायुवन्दिताय नमः ॐ वायुवेगपरायणाय नमः ॐ वायुस्थानकृथावासाय नमः ॐ वायुरूपाय नमः ॐ वायुसम्भृताय नमः ॐ वायुस्वरूपिणे नमः ॐ वायुधर्भविघातिने नमः ॐ वायुवेगाय नमः ॐ वायुव्यापिने नमः ॐ वायुर्ध्वलिङ्गाय नमः ॐ वायुवात्मने नमः ॐ वायुसूनुसमर्चिताय नमः वायुसूनुवरप्रदाय नमः ॐ वायुशारथये नमः ॐ वायनप्रियाय नमः ॐ वायुमण्डलमध्यगाय नमः ॐ वायुमण्डलमध्यस्याय नमः वायौ द्विधालीनाय नमः ॐ यायामनिरताय नमः ॐ यायोगप्रियाय नमः ॐ यायतभाहवे नमः चित्ताय नमः ॐ यायतात्मने नमः ॐ वियत्पतये नमः ॐ वियन्मूर्तये नमः ॐ वियद्रूपाय नमः ॐ वियत्प्रसवे नमः ॐ वियद्गोप्त्रे नमः ॐ वियदिन्द्रचापवत्ते जोमयवपुषे नमः ॐ वियताय नमः ॐ वियद्गङ्गाधराय नमः ॐ व्यधादिजगज्जनकाय नमः ॐ वियामप्रणयिने नमः ॐ वियामध्वरदीक्षिताय नमः ॐ व्यधन्तरचारिणे नमः ॐ वयाग्ररूढाय नमः ॐ वैयाग्रचर्मपरितानाय नमः ॐ वैयाग्रपुरवासाय नमः ॐ वैया करणमण्डलमध्यस्याय नमः ॐ वैयाकरणस्तुतवैभवाय नमः ॐ वरदाय नमः ॐ वरगुणधाम्ने नमः ॐ वरशीलाय नमः ॐ वरधानशीलाय नमः ॐ वरतुलाय नमः ॐ वरधर्मनिष्ठाय नमः य नमः ॐ वरुचये नमः ॐ वरगुणसागराय नमः धाभयकराय नमः ॐ वरवृषधुरङ्गाय नमः ॐ वरविबुधवध्याय नमः ॐ वरपरसुमृगाभयकराय नमः ॐ वरगुणाय नमः ॐ वरङ्गैर्येयाय नमः ॐ वरधानतीधर्वासिने नमः धा भये दधानाय नमः ॐ वरधाननिरताय नमः ॐ वरनिदिप् प्रधाय नमः ॐ वरत्रात्रे नमः ॐ वराहशैलवासिने नमः ॐ वरगुरवे नमः ॐ वरसेव्याय नमः ॐ वराहस्तुताय नमः ॐ वरारोहाय नमः ॐ वरारोहप्रियंकराय नमः ॐ वारोहिरसाभिषेकप्रियाय नमः ॐ वरास्तिमालालं कृताय नमः ॐ वराश्रयाय नमः ॐ वरीवस्यातुष्टाय नमः ङ्गनापूजिताय नमः ॐ वरधानतीर्थरूपिणे नमः ॐ वर्तनी प्रदर्शिणे नमः ॐ वर्धमानप्रियाय नमः ॐ वर्धमानाय नमः ॐ वर्याय नमः ॐ वर्षिणे नमः ॐ वर्मिणे नमः ॐ वर्णकारकाय नमः ॐ वरासिधारि ॐ वराङ्गाय नमः ॐ दर्शाय नमः ॐ वरालीवतंसाय नमः ॐ वक्षीद्याघमकारणाय नमः ॐ वर्षकराय नमः ॐ वर्षवराय नमः ॐ वर्षधराय नमः ॐ वर्षाणां प्रभे नमः ॐ वराहाय नमः ॐ वर्तमानाय नमः र्षते नमः ॐ वरुतमृदुदन्ति नमः ॐ वरधाभयपाणये नमः ॐ वरधाभयहस्ताय नमः ॐ वर्षधायकाय नमः ॐ वरमार्गप्रभेदिने नमः ॐ वर्णाश्रमरथाय नमः ॐ वर्णाश्रमगुरवे नमः ॐ वर्मधारिणे नमः ॐ वर्षनायकाय नमः ॐ वरुणैश्वर्यखण्डनाय नमः ॐ वरचन्दनानुलिप् ॐ वरवर्णिनीप्रियाय नमः ॐ वरार्धपङ्काभिषेकप्रियाय नमः ॐ वर्णभूषणाय नमः ॐ वर्णश्रेष्ठाय नमः ॐ वर्णाद्वचे नमः ॐ वर्णाभाह्याय नमः ॐ वर्णात्मने नमः ॐ वर्णाश्रमकराय नमः ॐ वर्णादिकाय नमः ॐ वर्णाम् प्रभवाय नमः ॐ वर्णाय नमः ॐ वर्णाचारविधायिने नमः ॐ वर्णसम्मुखाय नमः ॐ वर्णिने नमः ॐ वर्णविभागिने नमः ॐ वर्णिताय नमः ॐ वर्चसे नमः ॐ वरागशृङ्गधृते नमः ॐ वराभयप्रदपाणियुगलाय नमः ॐ वराक्षमालाभयतङ्कहस्ताय नमः ॐ वरार्हाय नमः ॐ वरेण्याय नमः ॐ वरेण्यवरसंस्थिताय नमः ॐ वर्षीयसे नमः ॐ वरूतिने नमः ॐ वर्षरूपाय नमः ॐ वरेशाय नमः ॐ वर्ष्म्याय नमः ॐ वरिष्ठाय नमः ॐ वरुणार्चिताय नमः ॐ वरुणाय नमः ॐ वरुणेन्द्राधिरूपिणे नमः ॐ वरुणाधाराय नमः ॐ वर्गत्रयाय नमः ॐ वर्गाय नमः ॐ वरीयसे नमः ॐ वरेढ्याय नमः ॐ वरभूषणदीप्तागाय नमः ॐ वराहभेदिने नमः ॐ वारुणाय नमः ॐ वारुणमदापहाराय नमः ॐ वारादीनिशङ्घाय नमः ॐ वारी कल्लोलसंक्षुब्धमः बुद्धिविदट्टनाय नमः ॐ वाराधीशारदये नमः ॐ वारणाजितपरिव्रताय नमः ॐ वारासीतूणीराय नमः ॐ वारिताधनुसंसारसन्तापाय नमः ॐ वारुणी मदकण्ठनाय नमः ॐ वारुणोसाय नमः ॐ वारुणी क्षेत्रनिलयाय नमः ॐ वारि नमः ॐ वारि नमः ॐ वार्तादिक्रान्तरूपिणे नमः ॐ वार्तज्ञाय नमः ॐ वाराहीपालकाय नमः ॐ वारिधारिणे नमः ॐ वराङ्गनाप्रियाय नमः ॐ वाराणेन्द्राजिनश्रेष्ठवसनाय नमः ॐ वारणेन्द्राजिनश्रेष्ठवसनाय नमः ाणस्यादिक्षुक्षेत्रनिवासाय नमः ॐ वाराणार्थिकृते नमः ॐ वारिरूपाय नमः ॐ वाराणसीवासलभ्याय नमः ॐ वाराणस्याविश्वेश्वराय नमः णासीपुरपतये नमः ॐ वाराहीप्रियाय नमः ॐ वारिवाहाभगन्धराय नमः ॐ वारिवस्कृताय नमः ॐ वारणभुजाफलप्रियाय नमः ॐ वारिकेलिप्रियाय नमः ॐ वारिक्रीडाकुतुकिने नमः ॐ विराण्मयाय नमः ॐ विरामाय नमः ॐ विरक्ताय नमः ॐ विरोधिने नमः ॐ विरूपरूपाय नमः ॐ विरजसे नमः ॐ विरजाय नमः ॐ विरिञ्चाय नमः ॐ विराडादिस्वरूपिणे नमः ॐ विराड्रूपाय नमः ॐ विरोचनाय नमः ॐ विरिञ्जिपूज्याय नमः ॐ विरोधिजनमोक्षणाय नमः ॐ विरोधहराय नमः ॐ विरोचनस्तुताय नमः ॐ विरोधिध्वंसिने नमः ॐ विराधविरोधिपूज्याय नमः ॐ विरति य नमः ॐ विरधाय नमः ॐ विरूपाय नमः ॐ विरूपाक्षाय नमः ॐ विराजे नमः ॐ विराट् नमः ॐ विराजिताय नमः ॐ विरूपधराय नमः ॐ विरुभेभ्यो नमः ॐ विराट् नमः ॐ विरागग्ने नमः विरुद्धलोचनाय नमः ॐ विरागिने नमः ॐ विरागी जनसंस्तुताय नमः ॐ विराचनी धीरवासिने नमः विरोदनिवारकाय नमः ॐ विरूपापतिगर्वहारिणे नमः ॐ विरुद्धवेदशारार्थप्रलाभिभवये नमः ॐ वीराविलोकवासिने नमः ॐ विरहिजनं नमः ॐ वीरालीपुरवासिने नमः ॐ वीरेश्वराय नमः ॐ वीरभाघवे नमः ॐ वीरभद्राय नमः ॐ वीरशिखामणये नमः ॐ वीरग्ने नमः ॐ वीरदर्भग्ने नमः ॐ वीरभृे नमः ॐ वीरशूटामणये नमः ॐ वीरपुंधवाय नमः ॐ वीराय नमः ॐ वीर्यवते नमः ॐ वीरराघाय नमः ॐ वीर्यवश्रेष्ठाय नमः ॐ वीर्यवधौर्यश्रयाय नमः ॐ वीर्यकाराय नमः ॐ वीर्यकराय नमः ॐ वीर्यग्ने नमः ॐ वीरहत्याप्रसमनाय नमः ॐ वीर्यवर्धनाय नमः ॐ वीरवन्द्याय नमः ॐ वीरासनैकनिलयाय नमः ीर्यवते नमः ॐ वीरगोष्ठीविवर्जिताय नमः ॐ वीरगोष्ठिप्रियाय नमः ॐ वीररुद्राय नमः ॐ वीरचरर्यापरायणाय नमः ॐ वीरमार्गरथाय नमः ॐ वीररामादिरामाय नमः ॐ वीर्याय नमः ॐ वीरासनैकनिलयाय नमः um ीराणां वीरभद्राय नमः ॐ वीर्यवल्ल्याधिरूपिणे नमः ॐ वीरस्कन्धवाहसेविताय नमः ॐ वीरस्कन्धसुरवरधाय नमः ॐ वीरागमकण्ठाय नमः ॐ वीरागमपञ्चकप्रतिपादकदक्षिणवदनाय नमः ॐ वीरमार्गप्रबोधिने नमः ॐ वीरसेव्याय नमः ॐ वीरभद्रप्रकल्य नमः ॐ वीरपत्नीस्तुतपराक्रमाय नमः ॐ वीरपानप्रियाय नमः ॐ वीरपानपराय नमः ॐ वीरासंसन वीरभवयङ्कराय नमः ॐ वीरविक्रमदर्शनप्रियाय नमः ॐ वीरसैन्यसंस्तुताय नमः ॐ वीरधुरन्धराय नमः ॐ वीराञ्चनेयरूपाय नमः ॐ वीररसप्रदाय नमः ॐ वीरग्रे राय नमः ॐ वीराचलनिलयाय नमः ीरन्धरवाकजनकाय नमः ॐ वीरभद्रगणसेविताय नमः ॐ वीरेश्वराय नमः ॐ वैरिसंहारकाय नमः ॐ वैरिवीर्यविधारणाय नमः ॐ वैरशुद्धिकराय नमः ॐ वैराज्योत्तमसाम्राज्याय नमः ॐ वैरानुभन्तिरूपाय नमः ॐ वैरने निर्यातनजागरूकाय नमः ॐ वैरोचनार्चिताय नमः ैरोचनप्रियाय नमः ॐ वैरूपश्रुतिवेत्रे नमः ॐ वैरारोहाद्युक्ताय नमः ॐ वल्लकीस्वनमुदिताय नमः ॐ वल्लकी गानलोलुपाय नमः ॐ वल्कलधारिणे नमः ॐ वलभिन्मित्राय नमः ॐ वलन्निद्धनुष्प्रभामालाय नमः ॐ वलशासननायकाय नमः लयित जटाजूटाय नमः ॐ वलयीकृतवासुकये नमः ॐ वल्मीकशम्भवाधृताय नमः ॐ वल्लभाय नमः ॐ वल्गते नमः ॐ वल्लभिषयिने नमः ॐ वल्ली नमः ॐ वल्गितविधे नमः ॐ वाला नमः ॐ वाला नमः ॐ वालिवैरिगुरवे नमः ॐ लकिल्यादियोगीन्द्रभाविताय नमः ॐलाग्रसदभागातिरदूष्माङ्गाय नमः ॐ वाल्मीकि पूजितपादाय नमः ॐ वालं मृगशामरविजिताय नमः ॐ वालिपूजिताय नमः ॐ वालीश्वराय ॐ विलसद् दिव्यकर्पूरे दिव्याङ्गाय नमः ॐ विलोचन सुदेवाय नमहान् ॐ विलोपिताय नमहान् ॐ विलसत्कृत्तिवाससे नमःन् ॐ विलोकिताय नमहान् ॐ विलोचकाय नमहान् ॐ विलोलनेत्राय नमहान् ॐ विलक्षणरूपाय नमहान् ॐ विलोमवर्णवन्दिताय नमहान् ॐ विलयकराय नमहान् ॐ विलीनपायाय नमः ॐ विलग्न ूर्तये नमः ॐ विलम्बित विदग्धाय नमः ॐ विलोकितकलितेन्द्रातिपादाय नमः ॐ विलोचनवलनमात्रकलितजगत्सृष्ट्याधिकाय नमः ॐ विलसद्बालनेत्राय नमः ॐ विलेपनप्रियाय नमः ॐ विलासिनि विभ्रमगेहाय नमः ॐ विलोकवामां गार्श्ववीषिताय नमः ॐ विलोपिनि भूषिततनवे नमः ॐ विलोचनत्रयी विराजमानाय नमः ॐ विलापबहुदूराय नमः ॐ वेलाविभ्रमशालिने नमः ॐ वेल्लिधा जननाय नमः ॐ वेल्लजगुसुमावतंसाय नमः ॐ वावधूकाय नमः ॐ व्यावृत्याय नमः ॐ व्यावृत्तम्बिकेक्षणाय नमः ॐ व्यावहारिकाय नमः ॐ व्यावहारिकप्रियाय नमः वसायाय नमः ॐ व्यवस्थानाय नमः ॐ व्यवस्थापकाय नमः वच्छेदमार्गभिज्ञाय नमः ॐ विवर्तनाय नमः ॐ विवस्वते नमः ॐ विवेकाख्याय नमहान् ॐ विवरणदक्षाय नमहान् ॐ विविक्तस्ताय नमः ॐ विविद्यन्दिभ्यो नमः ॐ विविधाकाराय नमः व्याधिने नमः ॐ विवेकिने नमः ॐ विवेकी विबुधानन्दाय नमः ॐ विवाहाय नमः ॐ विवादवरदाय नमः ॐ विवृत्तिकराय नमः ॐ विवर्तकलितजगत्प्रियाय नमः ॐ विवृतोक्तिपटिष्ठाय नमः ॐ विवृत्तात्मने नमः ॐ विविक्ताकाराय नमः विवाधिने नमः ॐ विवादहराय नमः ॐ विवाधिसम्प्रदायज्ञाय नमः ॐ वै वस्वताय नमः ॐ वै वस्वतस्य शास्त्रे नमः ॐ वशीकृतजगत्पतये नमः ॐ वश्रिये नमः ॐ वंशकराय नमः ॐ वशीकराय नमः ॐ वंशवर्धनाय नमः ॐ वंशनाथाय नमः ॐ वंशाय नमः ॐ वस्याय नमः ॐ विशादाकृतये नमः ॐ वशिने नमः ॐ वशकृते नमः ॐ विशतविज्ञानाय नमः ॐ विशतस्फटिकदिव्यविग्रहाय नमः ॐ विश्वभर्त्रे नमः विश्वादिकाय नमः ॐ विश्वरेतसे नमः ॐ विश्वरूपाय नमः ॐ विश्ववन्ध्याय नमः ॐ विश्वदीप्तये नमः ॐ विश्वोत्पत्तिकराय नमः ॐ विश्वकर्मणे नमः ॐ विश्वतैजसरूपाय नमः ॐ विश्वदेहाय नमः ॐ विश्वेश्वरेश्वराय नमः ॐ विश्वहन्त्रे नमः ॐ विश्वभावनाय नमः ॐ विश्वसाहाहाय नमः ॐ विश्वराजे नमः ॐ विश्वदक्षिणाय नमः ॐ विश्वस्मै नमः ॐ विश्वज्ञानमहोदये नमः ॐ विश्वगोप्त्रे नमः ॐ विश्वममङ्गलाय नमः विश्वनेत्रे नमः ॐ विश्वकेतवे नमः ॐ विश्वयोनये नमः ॐ विश्वेशाय नमः ॐ विश्वरक्षाभिधानकृते नमः ॐ विश्वरूपिणे नमः ॐ विश्वस्तामुसलोद्धारवित्रस्ततनवे नमः ॐ विश्वतोमुखायापि पञ्चमुखाय नमः ॐ विश्वतश्चक्षुषोऽपि पञ्चद दश चक्षुषे नमः ॐ विश्वदोगस्थायापि पञ्चतशकस्थाय नमः ॐ विश्वदःपाधायपि द्विपाधाय नमः ॐ विश्वदोहितायापि अनवरतकरुणाय नमः ॐ विश्वमुखाय नमः ॐ विश्वतचक्षुषे नमः ॐ विश्वजगन्नाथाय नमः ॐ विश्वदोहस्ताय नमः ॐ विश्वजगद्धात्रे नमः ॐ विश्वदप्पाधाय नमः ॐ विश्वतोरहिताय नमः ॐ विश्वात्माभावनाय नमः ॐ विश्वसृजे नमः ॐ विश्वदृशे नमः विश्वभुजे नमः ॐ विश्वकर्ममतये नमः ॐ विश्वचक्षुषे नमः ॐ विश्ववाहनाय नमः ॐ विश्वतनवे नमः ॐ विश्वभोजनाय नमः ॐ विश्वजैत्राय नमः ॐ विश्वक्षेत्राय नमः ॐ विश्वयोनये नमः ॐ विश्वलोचनाय नमः विश्वसाक्षिणे नमः ॐ विश्वमूर्घ्ने नमः ॐ विश्ववक्त्राय नमः ॐ विश्वमूर्तये नमः ॐ विश्वतेजस्वरूपवते नमः ॐ विश्वश्यपतये नमः ॐ विश्वरूपप्रदर्शकाय नमः ॐ विश्वभूतसुकृे नमः ॐ विश्वपरिपालकाय नमः ॐ विश्वसंस्थाय नमः um ॐ विश्वविमोहनाय नमः ॐ विश्वसुराराध्याय नमः ॐ विश्वपादाय नमः ॐ विश्वाध्यक्षाय नमः ॐ विश्रुधात्मने नमः ॐ विश्रुतवीर्याय नमः ॐ विश्रुधाखिल तत्त्वजालाय नमः ॐ विश्रामाय नमः ॐ विशारदाय नमः ॐ विशोधनाय नमः ॐ विशुद्धमानसाय नमः ॐ विशुद्धमूर्तये नमः ॐ विशिष्टाभीष्टदायिने नमः ॐ विश्वश्लाध्याय नमः ॐ विश्वभागवे नमः ॐ विश्वेश्वराय नमः ॐ विश्वतृप्ताय नमः ॐ विश्वनाथाय नमः ॐ विश्वभोक्त्रे नमः ॐ विश्ववेद्याय नमः ॐ विश्वरूपिणे नमः ॐ विश्वासा परिपूरकाय नमः ॐ विश्वगर्भाय नमः ॐ विश्रुङ्खलाय नमः ॐ विश्वामित्राय नमः ॐ विश्व्याय नमः ॐ विश्वमोहनाय नमः ॐ विस्थाङ्गाय नमः ॐ विश्वधुरन्धराय नमः ॐ विश्वेशाय नमः विश्वभराय नमः ॐ विश्वनिर्माणकारिणे नमः ॐ विशिष्टाय नमः ॐ विशोकाय नमः ॐ विशेषितगुणात्मकाय नमः ॐ विशाखाय नमः ॐ विशालाय नमः ॐ विश्वामरेसाय नमः ॐ विश्रान्ताय नमः ॐ विश्वामित्रप्रसादिने नमः ॐ विश्वासाय नमः ॐ विशाम्भतये नमः ॐ विशालाक्षाय नमः ॐ विशालपद्मपत्राभाय नमः ॐ विशालवक्षसे नमः ॐ विशालवक्षो विलक्षारुहासाय नमः ॐ वैश्रवणाय नमः ॐ वैश्वानराय नमः ॐ वैश्वदेवप्रियाय नमः ॐ विश्वभरसमाराध्याय नमः ॐ विश्वभरणकारणाय नमहान् ॐ वषट्काराय नमहान् ॐ विश्वनायकाय नमहान् ॐ वषट्कारप्रियाय नमहान् ॐ विश्ववासिने नमहान् ॐ वषडाकाराय नमकान् ॐ विश्वस्ताय नमः ॐ विष्णुवल्लभाय नमः ॐ विष्णुरूपविनोदिने नमः ॐ विष्णुब्रह्मादिवन्द्याय नमः ॐ विष्णुवन्द्याय नमः ॐ विष्णुप्रियाय नमः ॐ नम नम विष्णुनेत्रे नमः ॐ विष्णुमायाविलासिने नमः ॐ विष्णुगर्भकराय नमः ॐ विष्णुसङ्कल्पकारकाय नमः ॐ विष्णुरूपिणे नमः ॐ विष्णवे नमः ॐ नम विष्णुचैतन्यनिलयाय नमः ॐ विष्णुप्राणेश्वराय नमः विष्णुकलत्रयाय नमः ॐ विष्णुक्षेत्राय नमः ॐ विष्णुकोट्यर्चिदाङ्ग्रये नमः ॐ विष्णुमायात्मकारिणे नमः ॐ विष्णुप्रसाधकाय नमः ॐ विष्णुकन्धरपातनाय नमः ॐ विष्णुमूर्तये नमः ॐ विष्णुलक्ष्यस्वरूपिणे नमः ॐ विष्ण्वात्मकोत्तरवदनाय नमः ॐ विष्ण्वात्मकगुख्याय नमः विषाहारिणे नमः ॐ विषहर्यातिचतुर्मूर्तिप्रतिपादकपश्चिमवदनाय नमः ॐ विषभञ्जनाय नमः ॐ विषग्नाय नमः ॐ विषमाय नमः ॐ विषधराय नमः ॐ विषमटृष्टये नमः ॐ विषहारिणे नमः ॐ विषण्णागाय नमः ॐ विषमेक्षणाय नमः ॐ विषमनेत्राय नमः ॐ विषरोघादिभञ्जनाय नमः ॐ विषयार्णवमग्नानां समुद्धारणहेतवे नमः ॐ विषडम्भाय नमः ॐ विषभक्षणतत्पराय नमः ॐ विष्पक्षेनाय नमः ॐ विष्पक्षेन कृतस् श्रोत्राय नमः ॐ विष्टरस्रवसे नमः ॐ विश्वराय नमः ॐ वृषेन्द्राय नमः ॐ वृषवेश्वराय नमः ॐ वृषध्वजाय नमः ॐ वृषात्मने नमः ॐ वृषभाधीशाय नमः ॐ वृषारूढाय नमः ृषाणाय नमः ॐ वृषपर्वणे नमः ॐ वृषरूपाय नमः ॐ वृषवर्धनाय नमः ॐ वृषाङ्काय नमः ॐ वृषधस्वाय नमः ॐ वृषज्ञेयाय नमः ॐ वृषभाय नमः ॐ वृषकर्मणे नमः ॐ वृषनिधये नमः ॐ वृषप्रवर्तकाय नमः ॐ वृक्षस्थापकाय नमः ॐ वृक्षभाक्षाय नमः ॐ वृषप्रियाय नमः ॐ वृषनाभाय नमः ॐ वृषधर्भाय नमः ॐ वृषशृङ्गाय नमः ॐ वृषर्षभाय नमः ॐ वृषभोधराय नमः ॐ वृषभोक्षणाय नमः ॐ वृषसराय नमः ॐ वृषभूताय नमः ॐ वृषभातिरूढाय नमः ॐ वृषवाघनाय नमः ॐ वृषगमनाय नमः ॐ वृषभस्ताय नमः ॐ वृषाकृतये नमः ॐ वृषा नमः ॐ वृषाहिने नमः ॐ वृषोधराय नमः ॐ वृषाधाराय नमः ॐ वृषायुधाय नमः ॐ वृषभवाहनाय नमः ॐ वृषभतुरङ्गाय नमः वेष्टकप्रणवान्दोधिननाथशाधपीड मध्योग्रमातिविलसत्विकारादिनादान्दात्मने नमः ॐ वैष्क्रम्याय नमः ॐ वसवे नमः ॐ वसुमनसे नमः ॐ वसुमते नमः ॐ वशुश्रवसे नमः ॐ वशुश्वासाय नमः ॐ वसुरेतसे नमः ॐ वसुरत्नपरिच्छाधाय नमः ॐ वसुप्रियाय नमः ॐ वसुधास्तुताय नमः ॐ वसुधाय नमः ॐ वसुन्दराय नमः ॐ वसुश्रेष्ठाय नमः ॐ वसुत्रात्रे नमः ॐ वसुदेदेवाय नमः ॐ वसुजन्मविमोचिने नमः ॐ वसुप्रदाय नमः ॐ वसुधाय सहरणाय नमः ॐ वसुन्दरामःभारसुधनाय नमः ॐ वसूनां पावनाय नमः ॐ वसूनां पतये नमः ॐ वसिष्ठादिमुनीन्द्रार्चिताय नमः ॐ वसिष्ठाय नमः ॐ वसिष्ठवामदेवादिवन्द्याय नमः ॐ वसन्ताय नमः ॐ वस्तुरूपाय नमः ॐ वसन्तऋथवे नमः ॐ वस्वयनाय नमः ॐ वस्वात्मकाय नमः ॐ वासवयागविधे नमः ॐ वसन्तेशाय नमः ॐ वासववन्द्याय नमः ॐ वासवाधिस्तुताय नमः ॐ वसन्तधाय नमः ॐ वासभाभीष्टदाय नमः ॐ वासवाय नमः ॐ वासवपूजिताय नमः ॐ वासुदेदेवाय नमः ॐ वासुदेव मनोहराय नमः ॐ वासुकीज्याय नमः ॐ वासवार्चितपदश्रिये नमः ॐ वासुकीभूषणाय नमः ॐ वासधारिविनाशिने नमः ॐ वासुदेवप्रियाय नमः ॐ वासुदेवै कवेध्यायं धवैभवाय नमः ख्यादिमः सर्पालङ्कृताय नमः ॐ वासुखी कण्ठभूषणाय नमः ॐ वासुखी तक्षकलसत्कुण्डलाय नमः ॐ वासुखी नमः ॐ वासुखि नमः ॐ वासुकी कङ्कणाय नमः ॐ वास्तव्याय नमः ॐ वासुदेवसहायाय नमः ॐ वास्तुपाय नमः ॐ वासुदेवार्चितस्वामृभं केरुहाय नमः ॐ वास्थेयभूतनिगमन्यक्रोधाय नमः ॐ वास्तवार्थविजिज्ञासुनेदिष्टाय नमः ॐ वासवादिसुरश्रेष्ठवन्दिताय नमः ॐ वासवेश्वराय नमः ॐ व्यासाय नमः ॐ व्यासशूद्रार्थगोचराय नमः ॐ व्याससन्नुताय नमः ॐ व्यासमूर्तये नमः ॐ व्यासमौनिस्तुताय नमः ॐ व्यासादिमौनीन्द्रमहिताय नमः ॐ विस्फारिततेजसे नमः ॐ विष्णुजदभ्यो नमः ॐ विस्ताराय नमः ॐ वाहिनी भवदुक्षाय नमः ॐ वाहिनी कृतवृषभाय नमः ॐ वाहिनीकृतधर्मराजाय नमः ॐ वह्निनेत्राय नमः ॐ वंशिप्रभाय नमः ॐ वंशिमूर्तये नमः ॐ वंशिमण्डलमध्यगाय नमः ॐ वंशिश्रोमार्करूपाय नमः ॐ वंशिलिङ्गाय नमः ॐ वंशिधर्भविघातकाय नमः ॐ वह्मात्मने नमः ॐ वंशिते ॐ वन्किरेधसे नमः ॐ वन्हये नमः ॐ वन्याहलिङ्गाय नमः ॐ वन्किसोमार्गलिङ्गाय नमः ॐ विह्फलाय नमः ॐ विहङ्गाय नमः ॐ व्यूहाय नमः ॐ विहायसगतये नमः ॐ व्यूहेशाय नमः ॐ वक्षाय नमः ॐ वगक्षद्युतिशेखराय नमः ॐ वकक्षवृषभारूढाय नमः ॐ वकक्षभूतिभूषिताय नमः ॐ वहित्रयविराजिताय नमः ॐ व्याहिकनिराशकाय नमः ॐ व्याहिने नमः ॐ व्याघरूपाय नमः ॐ यागभूषणाय नमः ॐ याकयज्ञसूत्राय नमः ॐ यागदंष्ट्रासदधाराय नमः